ो जयलक्ष्मी निधानास्य निजस्य स्वामिनः पुरः जयोघोषण पीयुष रसमा जन जय रुद्रयेकर शिव महादेव महेश्वर पार्वती सर्वगी जयमूर्त त्रिशक्त्यात्म शीतशूलोल जया क्षयताशु कला सदृश संश्रय जय गंग सदार भ्याषेचन जया धाङ्गलि कृत गोकुल जय भक्ति मदाव गोष्ठी नियत सन्नि हे जय रसारद्राद्र भोपायनल जय भक्ति मनो नाम भक्तवा न्यस्त स्वमुद्राव्यक्त वै भव जयात्म दानपर्यन्तेश्वरम् विश्वक्षयो चन्द्र क्रिया निष्परिपन्थिक जय श्रेयः शतगुणानुगणा मानुकीर्तन जय मोहान्धकारी काधि जगरूकाधिपुरुष जय स्वर्गस्थित कावदानक का का। जय भक्ति मीलोत् पलो